पशूनां पतिं पापनाशं परेशं गजेन्द्रस्य कृतिं वसानां वरेण्यं जटाचूटमध्यस्फुरत् गङ्गवारि महादेवमेकं स्मरामि स्मरामि महेशं सुरेशं सुरारातिनाशं विभुं विश्वनाथं विभुत्यङ्गभूषं विरूपाक्षमिद्वर्कवन्नेत्रिनेत्रं सदानन्दमीडे प्रभुं पञ्चवक्रं गिरीशं गणेशं गले नीलवर्णे गवीन्द्राधिरूढं गुणातीतरूपं भवं भास्करं भस्मनाभूषिताङ्गं भवानी कलत्रं भजे पञ्चवक्रं शिवाकान्तशम्भो शशाङ्कार्धमूले महेशानशूलिं जटाजूटधारिन् त्वे मेको जगद्व्यापको विश्वरूप प्रसीद प्रसीद प्रभुपूर्णरूप परात्मानमेकं जगद्वीजमाद्यं निरीहं निराकारमुकारवेद्यं यतो जायते पाल्यते येन विश्वम् तमेषं भजे लीयते यत्र विश्वं न भूमिर्न चापो न वन्येर्न वायु न चाकाशमास्ते न तंद्रा न निद्रा न ग्रीष्मो न शीतं न देशो न वेशो। न यस्यास्ति मूर्तिस्त्रिमूर्ति मूर्ति तमीडे अजं शाश्वतं कारणं कारणानां शिवं केवलं भासकं भासकानां तुरीयं तमः पारमाद्यन्तहीनं प्रपद्ये परं द्वैतहीनं नमस्ते नमस्ते विभोवेश्वमूर्ते नमस्ते नमस्ते विभो चिदानन्दमूर्ते नमस्ते नमस्ते तपोयोगम्य नमस्ते नमस्ते श्रुतिज्ञानगम्य प्रभोशूलपाणि विभो विश्वनाथ महादेव शम्भो महिषत्रिनेत्र शिवाकान्त शान्त स्मरारे पुरारे त्वदन्यो वरेण्यो न मान्यो न गण्य शम्भो महेशकरुणामयशूलपाणि गौरीपते पशुपते पशुपाशनाशिन् काशीपते करुणया जगदे तदेकस् त्वं पासि विदधासि महेश्वरोसि त्वत्तो जगद्भवति देवभव स्मरारि त्वयैव तिष्ठति जगन्मृढविश्वनाथ त्वयैव गच्छति लयं जगदे तदीश लिङ्गात्मके